ततशक्रेण सन्दिष्टश्चित्रसेनो ममान्तिकं प्राप्तः कमलपत्राक्षस त्वत्कृतेहं मामब्रवीदथा सुरेशेन प्रेषितो वरवर्णिनि प्रियं कुरु महेन्द्रस्य मम चैवात्मनश्चः शक्रतुल्यं रणे शूरम् सदौदार्यगुणान्वितम् पार्थं प्रार्थय शुश्रोणि त्वमित्येवम् तदाब्रवीत् ततोऽहं समनुज्ञाता तेन पित्रा च तेन तवान्तिकमनुप्राप्ता शुश्रूषितुमरिन्दम त्वद्गुणाकृष्टचित्ताहमनङ्गवशमागता चिराभिलषितो वीरममाप्येषमनोरथः वैशम्पायनुवाच तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जावृतोऽर्जुनः उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशालये दुःश्रुतं मेऽस्तु सुभगे यन्मां वदसि भाविनि गुरुदारैः समानामे निश्चयेन वरानने यथा कुन्तीमहाभागा यथेन्द्राणी शचीममा तथा त्वमपि कल्याणि नात्र यच्चेक्षिताऽऽसीत् विस्पष्टं विशेषेण मया शुभे तच्च कारणपूर्वं हि शृणु सत्यं शुचिस्मिते इयम् पौरववंशस्य जननीमुदितेतिह त्वामहम् दृष्टवांस्तत्र विज्ञायोत्फुल्ललोचनः न महसी कल्याणी अतमसर गुरोर्गुरतरा मम वशवर्धि